ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरा गुरुः साक्षात्परब्रह्मा तस्मै श्रीगुरवे नमः गुरवे, गुरवे सर्वलोकानाम् भिषजे भवरोहिणा निधये सर्वविद्याना श्रीदक्षिणामूर्तये नमः गणान् त्वा गणपतिगम् हवामहे कविम् कभीनामुपमश्रवस्तवम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पथ आरशृण्वन्ोतिभिः सेदसादनम् ओम् श्रीमहागणपत जे नमः